अम्बत्यवद् दशकम् काळ्यनर्तनम् अथवारिणि घोरतरम् पणिनम् प्रतिवारयितुम् द्रुतमारिततीरगनीपतरम् विषमारुतशोषितपर्णशयम् अधिरुह्य पदाम्बुरुहेण शतम् नवपल्लवतुल्यमनोज्ञरुचारिणि दूरतरम् भुवनत्रयबारभृतो भवतो गुरुबारविकम्पि विजृम्बिजला परिमज्जयति स्म धनुशतकम् तटिनी अददीक्षु विदीक्षु परीक्षु वित प्रमितो दरवारिणि उदगादुदगादुरगातिपतिस्त्वदुभान्तमशान्तरुषान्तमना पणशुङ्कसहस्रविनिसृमरज्वलद निगणोऽग्रविशाम्बुदरम् पुरतपणिनम् समलोक यथा भगुङ्किणमञ्जनचैलमिव ज्वलदक्षि परिक्षरदुग्रविश स्वसनोष्मपर समखाबुजग परिदश्य भवन्तमनन्तबलम् समवेष्ट बवन्त अलोक्य बवताकुगाजगे कतलेप्य निशम सुदीक्ष गताय मुना पशुभ अखिलु विभोदीयशा अवलोक्य जिहासु शुव नमासु पणिबंध जवात् उदगम्यतः स जुषा भवता अधिरुच्य जकृषोपसुभासुधुषोर्मुनयो ववृषो कुसुमानि सुरेन्द्रगणा त्वयि नृत्यति मातये कपते परिपायि समान्तमदान्तगता कृष्ण जै कृष्ण जय कृष्णज कृष्णकृष्ण कृष्ण कृष्णकृष्णज